श्रीहरये नमः अत त्रिंशोऽध्यायः वितुर उवाच ये त्वया विहिता ब्रह्मन्सुता प्राचीनबर्हिषः ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोक्षका किं आसाद्यदेवं देवं गिरिशं यदृश्चया प्राभुः परं नून मधः प्रचेदसः मैप्रिय पितुरादे सकारिणः जपयज्ञेन तपसा पुरञ्जनं मतोक्षयन् दशवर्ष सहश्रान्ते पुरुषस्तु सनातनः तेषामाविरभूत्कृश्रम् शान्तेन समयन्नृचा सुपर्णस्कन्धं मारुढो मेरुशृङ्गमिवाम्भुतः पीतवासो मणिग्रीव कुर्वन् वितिमिरादिशः कासिष्णुना कनकवर्णविभूषणेन प्राजत्कपोलवधनो विलसत्किरीटः अष्टायुधैरनुचरैर्मुनिभिःसुरेन्द्रैर् आसेवितो गरुटकिन्नरगीतकीर्तिः पीनायदाष्टभुजमण्डलमध्यलक्ष्म्या स्पर्दश्रिया परिवृतो वनमालयाद्यः बर्हिष्मतः पुरुष आकसुतान् प्रपन्नान् पर्जन्यनाधरुतया सघृणावलोकः श्रीभगवानुवाच वरं वृणे त्वं भद्रं वो यूयं मे नृपनन्ददाः सौहार्देनापृथग् धर्मा तुष्टोऽहं सौहृदेन वः यो नुस्मरति सन्ध्यायां युष्माननुदिनं नरः तस्य भ्रातृषु आत्मसाम्यं तथा भूतेषु सौहृदं ये रुद्रगीतेन सायं प्रातः स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनं यत् यूयं पितुरादेशम् अग्रकीष्टं मुदान्विताः अथो बव सति कीर्तिर्लोकान् अनुभविष्यति भविता विश्रुतः पुत्रो नवमो ब्रह्मणो गुणैः ययेतात्मात्मवीर्येण त्रिलोकीं पूरयिष्यति कण्ठो ब्रह्मलोचया लब्धा कन्या कमलोचना तां च बद्धां जगृहोर्भूरुहा नृपनन्दनाः राजा सोमपीयूष वर्षिणे देसीनिं तत्र कन्यां वरारोहां तामुद्वहतमाचिरम् अपृधक् धर्मशीलानां सर्वेषां वसुमध्यमः अपृधक् धर्मशीलेयं भूयात्पत्न्यर्पिता स या दिव्यवर्षसहस्राणां सहस्रमखतौ जसहा भौमान् बोक्षत भोकान् वै दिव्यांश्चानुग्रहान् मम अथ मयि अनपायिन्या भक्त्या पक्वगुणाशयाः उपयास्य तमद्धामनिर्विद्यनिरयाधतः गृहेष्वा विसताम चापि कुसल कुशलकर्मणाम् मद्वार्ता यातयामानां न भन्ताय गृहामताः नव्यवत् हृदये यज्ञो ब्रह्मैतत् ब्रह्मवादिभिः न मुह्यन्ति न शोचन्ते न हृष्यन्ति यतो पुरुषार्थभाजनं जनार्दनं प्राञ्जलय प्रचेतसः तद्दर्शनध्वस्ततमोरजोमला गिरा गृणन् गद्गतया गत सुकृत्तमं प्रेचेतशबूचू नमो नमः क्लेशविनाशाय निरुपितोार सर्वाश मार्गैः अगधात्मने नमः शुद्धाय शान्ताय नमः स्वनिष्ठा मनसि अपार्थम् <laughs> विलसद्वयाय <laughs> नमो जगस् स्थानलयोदयेषो गृहीतमाय नमो विशुद्धसत्त्वाय हरये हरिमेदसे वासुदेवाय कृष्णाय प्रभवे सर्वसात्वतां नमः कमलनाभाय नमः कमलमालिने नमः कमलपादाय नमस्ते कमलेक्षण नमः कमल किञ्जल्कपिशाङ्घामलवाससे सर्वभूतनिवासाय नमो युङ्क्ष्महि रूपं भगवता तु एधतशेषक्लेशसंक्षयम् आविष्कृतं न किलिष्ठानां अनुकंपितं अनुकम्पितम् एतावत्त्वं हि विभुभ्यैर्भाव्यं दीनेषु वत्सलैः यदनुस्मर्यते काले स्वभुद्ध्या भद्र रन्धन येन उपशान्तिर्भूतानां शुल्लकानाम् अपीहताम् अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेदनाशिषः असावेव वरोऽस्मा कामीप्सितो प्रसन्नो भगवान् येषाम् अपवर्गुरुर्गतिः वरं व्रीणिमहे तापीनाद त्वत्परतः परात् नह्यन्तस्त्वद्विभूतीनां रङ्गोऽन्यन्न सेवते त्वदङ्घ्रिमूलमासाध्य साक्षात् किं किं वृणीमहि कर्मभिः तावत् भवत्प्रसङ्गानां शङ्घान्तो भवे भवे तुलयामलवेनापि न स्वर्गं न पुनर्भवं भगवत्सङ्गि सङ्गस्य मर्त्यानां किमुताशिशः यद्रेट्यन्ते कथा मृष्टास्तृष्णायः प्रसमो यतः निर्वैरं यत्र भूतेषो नो त्वेगो यत्र कश्चन यत्र नारायणसाक्षाद्भगवान्यासिनां गतिः संस्तूयते सत्कतासो मुत्सङ्गै पुनः पुनः तेषां विचरतां भद्भ्यां तीर्थानां पावनेच्छयाम् भीतस्य किं न रोचेत तावकानां समागमः वयं तु साक्षात् भगवन् भवस्य प्रियस्य शक्यक्षणसङ्गमे न भवस्य मृत्यो कतिं गता स्मः यन्नस्वधीतं कुरवः प्रसातिता विप्राश्च वृद्धाश्च सतानुवृत्या आर्यानता सुकृतो भ्राधरश्च सर्वाणि भूतान् अनसूयैव यन्न सुदप्तं तपयेतदीश निरन्धसां कालम् अध्रमप्सु सर्वं तदेतत्पुरुषस्य भौम्नोऽ वृणीमहे ते परितोषणाये मनुस्वयम्भोर्भगवान् भवश्च येन तभोज्ञानविशुद्धसत्त्वाः अदृष्टपारा अपि यन्महिं न स्तुवन्त्यतोत्वात्मसमं शुद्धाय पुरुषाय वासुदेवाय सद्वाय तुभ्यं भगवते नमः मै प्रेय उवाच इति प्रचेदोऽपि अपिष्टुतो हरे प्रीतस्तदे ख्यातसरण्यवत्सलः अनिच्छतां यानमदृप्तचक्षुषां ययौस्वदानमानपवर्गवीर्यः अथ निर्याय सलिलात् प्रचेत स उदन्वतः वीक्षा कुप्यन्द्रुमैश्चन्नाच्छ्रितैः ततोग्निमारुतो राजन् महीं निर्विरुधं कर्तुं संवर्तक इवात्यये भस्मसात् प्रीक्यमाणां स्थान् द्रुमान् वीक्ष पितामहः आगत तत्रावसिष्ठा ये वृषा भीता दुहितरं तधा उज्जहृस्ते प्रचेतोभ्य उपदिष्ठा स्वयम्भुव ते च ब्रह्मण आदेशात् मारिषामुपयेमि रे यस्यामगतवज्ञानात् अजन्यजनयो निजः चक्षुषेत् तन्त्रातेसर्गे काल विद्रुते यस्य सर्ज प्रजा युष्ठा स दशोधैव चोदितः योजायमानः सर्वेषां तेजस्तेजस्विनामृचा दक्षमब्रुवन् तम् प्रजा सर्गरक्षायाम् अनादिरभिषिच्य च युयोजयु युजेन्यांश्च स इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे त्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराजिकी जय